गणेशपुराणम् क्रीडाखण्डम् अध्यायम् 55 फैव् मुनिरुवाच तयोस्तु गदयोः पश्चान्मोहापन्नो महानृपः काशिराजोहयारूढो भ्रमदिष्म गृहे गृहे विनायकमचक्षाणः क्व गदो भोक्तृमित्युद विहाय मां कथं यादो मिष्ठान्नं भोक्तुमेकशः गृहे गृहे पर्यपृच्छक्व गतोसौ विनायकः इदानीं बहिरा यादो भुक्त्वा क्रीडितुमुत्सुकः काशिराजेन सहिदो वृथा त्वं पृच्छसे कथम् एवं निराकृदः सर्वैः पुरवासिजनैरसौ परमं श्रममापन्नो कुटुम्ब्य किञ्चनो यथा केचिदोजुः शुक्लगृहे क्रीडते सौ विनायकः ततो हर्षयुतः शुक्लगृहं यादो नृपस्तथा ददर्श चाङ्गणे तस्य बालं वृषगदं विभुं दृष्ट्वादं वृषभारूढं त्रिनेत्रमिव चा परम् प्रणम्यपरया भक्त्या बद्धाञ्चलिपुडो ब्रवीद नृप उवाच न बाले साधुचरितं न ज्ञानं स्नेह एव च विहाय मां कथं भुक्तं मिष्टान्नं विविधं त्वया क उवाच एवमाकर्ण्यतद्वाक्यमुवाच स विनायकः यत्र यत्र मया भुङ्े तत्र भुक्तं त्वयापि च मिथ्या त्वं भाष्यसे मन्दबालस्वमसि बुद्धिदः वदिष्यन्ति जनाः सर्वे पच्छेदि ससाक्षिकम् श्रुत्वा वैनायकं वाक्यं जना ऊचुर्नृपं तदा इदानीं हि त्वया भुक्तं विनायकसमीपतः कथं मिथ्या भाषसेत्वं वृद्धः सन् नृपसत्तम तदप्रकृतिमापन्नो ज्ञातवान् अज्ञेयादे परामाया योगिनामपि मोहिनी सर्वरूपेण सर्वत्र मानितो यतः क उवाच रोमाञ्चाञ्चिदगात्र सध्यानमेवान्वपद्यद तदो वैनाय्यकं रूपं स्वयमेवान्वपद्यत यथा जलं जलं क्षिप्तं जलत्वं प्रतिपद्यते पुनर्मायाबलेनाः सौ भिन्नमूर्तिर्नृपोत्तमः स तुत्तं शिबिकारूढं निनाय निजमन्दिरं नानावादित्रनिर्घोषैर्नृत्यय गीतैरनेकषः शुशुभे बालको देव देवेषु मदनो यथा अनुयादि सपत्नी गो भक्त्या शुक्लशनैः शनैः परावर्त्यमुखं दृष्टो बालेन व्रीडदा भृशं कथं प्रयादो दत्वास्मै वरं कञ्चन तोषकम् इत्येवं मनसा तस्मै ददौ सम्पत्तिमुत्तमां कुबेर सम्पदश्रेष्ठां सर्वाश्चर्यकरीं विभुः शुक्लपरावृत्तो दीनः सपत्नीको महामनः कदन्न भक्षणाद्देवो किं त्विति चिन्तयन् नापश्यतां पर्णकुटीं चिन्तां परमिकाम् ययौ तदस्तु सेवका शुक्लं सुगन्धतैलमर्दनैः स्नापयित्वा प्यलञ्चक्रुर्घूषणैः काञ्चनां शुकैः तथैव तस्य पत्नीं च बलादिवनियोजिताः अत्याश्चर्ययुतौ चोभौ पश्यदसर्वसम्पदः रत्नकाञ्चनभित्तीश्च मञ्चान्नानासनानि च मुक्ता मणिगणैश्चित्राण्यनेकानि स्थले स्तले, स्तले। काञ्चनानि च भाण्डानि वस्त्राण्याच्छादनानि च चा। भक्ष्याण्यनेकरूपाणि खाद्यानि विविधानि सकलं पृष्ट्वे चौभौ परस्परमभाषदाम् किमिदम् भवनं क्षुद्रं जातमिन्द्रगृहोपमं तद शुक्लो ब्रवित्पत्नीम् विनायकप्रसादः सर्वम् जानीहि सुभगेन्न समक्षं महाविभुः ददाति दुपराक्षे सौ अल्पमात्रेण तोषयन् स्वयम् दत्तं बहुधरमल्पमे वहि मन्यते भक्त्योपपादितं स्वल्पमन्य बहुलं विभुः तस्मात् भयेन कामेन स्नेहेन रिपुभावतः स्मार्तव्योन्नमनीयश्च स्तव्यपूज्योहिताय च मुनिरुवाच ततस्तु नगरे गुप्तौ नरान्तकसमीरितौ आस्तां दूतौ चिरं कालं शूरश्च चपलस्तथा यच्चण्डशब्दात्त्रैलोक्यं कम्पदेश्वपत्रवद यच्चिरकम्पदकम्बं या यान्ति देवासवासवाः पराक्रमे बले शब्दे त्रैलोक्येन समस्तयोः अयं तु शिबिगामध्ये हन्तव्यो मुनिदेहजः यदो नेन हदा दैत्या बलिनः पूर्वमागताः तेषां प्रतिकृधिकार्येत्येवमोच्युः परस्परं विद्युद्रूपं समास्ताय गर्जद स्म महारवौ तत्तेजसा प्रतिगत किमिदं किमिदमिति चुक्रशुभश्वलास्त शिपिका निक पलायिता शर्व त्यक्वा तम च विनायक धृत विनायक नोभ हस्ताभ्यालिनौलाद उत्डिम धरण्य स सब भ्रमयामा सबू करुणाद्रमणाः <San> पश्चास्तापयामास भूदले अन्तव्यपुरुषेणासौ यः पराप्रमदोऽधिकः मशके कस्याः कस्यात् पुमर्धपुरुषस्यः ततः पप्रच्छतौ कस्य दूदौ वा कद्यदामिति स्वशक्रियादुभृते यत्ने न एवं तद्वचनं श्रुत्वा प्रोच दुःपुरदस्थितौ करुणाब्धिर्भवान् ख्यादो दिननाधः पितासिनः शेककृत्योपनेता च विद्यादो भयदो परह। पञ्चपितरो विख्यादा भुवनत्रये आवां गुप्तरूपौ नरान्तकसमीरितौ तव विघ्नकरौ देव रक्षितौ कृपयात्वया भूदं भव्यं भवच्चैव सर्वं जानासि सर्वविद ये ये वैरेण त्वां यादाहदास्ते क्षणमात्रतः यस्मिन्नन्तरे पौरा विनायकमधा ब्रुवन् किमेतौ रक्षितौ देवदुष्टौ लोकभयङ्करौ अनयोरुपकारस्तु कृतोपकृतये भवेद पन्नगायपयो दत्तं विषमे वहि जायते मुनिरुवाच तानुवाच तदो देवः पूर्वमेवानयोर्मया अभयं दत्तमधुना विपरीतं कथं भवेद इत्युक्त्वा मोजयत् तौसा तदो तौ स ततो राजा ब्रवीत्पुनः अपराधानसङ्ख्यादान् क्षान्त्वा तौ मोचितौ रिभू मरणे जीवने गन्धोरिचादे करणं मदा इत्युक्त्वा मन्दिरं प्राप्तौ काशिराजविनायकौ न त्वा तौ, तौ सर्वलोकाश्च स्वं स्वं भवनमागमन् प्रशंसन्तो नृपं नानारूपिणं च विनायकम् इति श्रीगणेशपुराणे क्रीडाखण्डे दूतमो जनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ओ